आर्क्षे संवरणे राजन प्रशासति वसुन्धराम् संक्षयः सुमहानासीत् प्रजानामिति न श्रुतम् व्यशीर्यतततो राष्ट्रम् क्षयैर्नानाविधैस्तदा क्षुन्मृत्युभ्यामना वृष्ट्या व्याधिभिश्च समाहतम् अभ्यघ्नन् भरतांश्चैव सपत्नानाम् बलानि च चालयन् वसुधाञ्चेमाम् बलेन च तुरङ्गिणा अभ्ययातम् जपान् चा चाल्यो विजित्य तरसामहीम् अक्षौहिणीभिर्दशभिः स एनम् सदारस्सामात्यः स पुत्रस्य हृदृज्जनः राजा संवरणस्तस्मात् पलायतमःभयात् सिन्धो नदस्य महतो निकुञ्जेऽन्यवसत्तदा नदी विषयपर्यन्ते पर्वतस्य समीपतः तत्रावसन् बहून् कालान् भारता दुर्गमाश्रिताः तेषाम् निवसताम् तत्र सहस्रम् परिवत्सरान् अथाभ्यगच्छद्भरतान् वसिष्ठो भगवान् ऋषिः तमागतम् प्रयत्नेन प्रत्युगम्याभिवाद्य अर्घ्यमभ्याहरस्तस्मै ते सर्वे भरतास्तदा निवेद्य सर्वं ऋषये सत्कारेण सुवर्चसे तमासने चोपविष्टम् राजावव्रे स्वयम् तदा पुरोहितो भवान् नोऽस्तु राजाय प्रयते महि ओमित्येवम् वसिष्ठोऽपि भरतान् प्रत्यपद्यत अथाभ्यषिञ्चत्साम्राजे सर्वक्षत्रस्य पौरवम् विषाणभूतम् सर्वस्याम् पृथिव्यामिति न श्रुतम् भरताध्युषितम् पुरोत्तमम् पुनर्बलिभृत चक्रे मही तत पृथिवीं प्राप्य पुनरीजे महाबल आजमीढ़ो महायज्ञ बहुर्भूरिद्क्षिण तत संवरण सौरी तपती सुशुभे कुं राजे तम प्रजा सर्वाधर्म जव्रीरे तस्नाव्यात पृथिव्यांजांगल कुरु कुरक्षेत्र सतपस पुण्यं चक्रे महातपा अश्रवंत्यं तथतरथं मु जनमे जयञ्च विख्यातम् पुत्रांश्चास्यानुशुश्रुमा पञ्चैतान् वाहिनी पुत्रान् व्यजायतमनस्विनी अविक्षितः परीक्षित्तु शबलाश्वस्तु वीर्यवान् आदिराजोऽ विराजश्च वी शाल्मलिश्च महाबलः उच्चैश्रवाभङ्गकारो जितारिश्चाष्टम स्मृतः एतेषामन्ववाये ख्यातास्ते कर्म जय सप्त तथैवा ने महारथाः परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थको विदाः रक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान् इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः जनमे जयस्य तनया भुविख्याता महाबलाः धृतराशः प्रथमजः पाण्डुर्बाह्निक एव च निषधश्च महातेजास्तथा जाम्बूनदो बली कुण्डोदरः पदातिश्च वसातिश्चाष्टमस्मृतः सर्वे धर्मार्थ कुशलाः सर्वभूत हितेरताः धृतराष्ट्रोऽथ राजासीत् तस्य पुत्रोऽथ कुण्डिकः हस्ते वितर्कः क्रातश्च कुण्डिनश्चापि पञ्चमः अविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः धृतराष्ट्रसुता नाम् तु त्रीनेतान् प्रथितान् भुवि प्रतीपम् च सुनेत्रम् चापि भारत प्रतीपः प्रथितस्तेषाम् बभू प्रतिमो भुवि ीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ देवापिश्शान्तनुश्चैव बाह्लीकश्च महारथः देवापिश्च प्रव्राजा तेषाम् धर्महितेप्सया शान्तनुश्च महीम् लेभे बाह्लीकश्च महारथः भरतस्यान्वये जाताः सत्त्ववन्तो नराधिपाः देवः श्रिकल्पा नृपते बहवो राजसत्तमाः एवंविधाश्चाप्यपरे देवकल्पा महारथाः ता मनोरन्व वाए अल वंश विवर्धना श्री महाभारते आदि पर्व संभव पर्व पूर्वशाकर्तने चुनर्नवती